हरिओं श्री सीताचंद्रभ्य नम अथ श्रीमद्वायण अयोध्या सर्ग है श्रीराम सह सैन्यम कौशम चेषयुमस आदेश कैकेयी कर्तक विरोध सिद्धार्थन कैकेय प्रबोधन राज्ञा स्वयमपि श्रीरामेण स वनम् गन्तुम् इच्छाया प्रकटनम् ततः स्वन्तम् नैक्ष्वाक पीडितोऽत्र प्रतिज्ञया स्वाष्पमतिनिश्व पुनर्वचहे सूतरत्नासु सम्पूर्णा चतुर्विध बला च रूपाजीवाश्वादिन्यो वणिजश्च महाधनः शोभयन्तु कुमारस्य वाहिनी सुप्रसारिताः ये चैनम् उपजीवन्ति रमते यश्च वीर्यतः तेषाम् बहुविधम् दत्त्वा तानप्यत्र नियोजय आयुधानि च मुख्यानि नागरशकटानि च अनुगच्छन्तु काकुत्स्थम् व्याधाचारण्यकोविदः निघ्नन् मृगान् कुञ्जराश्च पिबारण्यकम् मधु नदीश्च विविधः पश्यन् न राज्यम् संस्मरिष्यति धान्यकोशश्च यः मामकः तौ रामम् अनुगच्छेताम् वसन्तम् निर्जनेवने यजन् पुण्येषु देशेषु शु। विसृजन् चाप्तदक्षिणः ऋषिभिः चापि सङ्गम्य प्रवर्त्यति सुखम् मने भरतश्च महाबाहुः अयोध्याम् पालयिष्यति सर्वकामे पुनः श्रीमान् एवम् ब्रुवति काकुत्स्थे कैकेयी भयमागत मुखं चाप्य गोषम स्वरच्चापी व्यू्यत साषणा चतस्ता मुखेन परिशुष्यत, पिशुष्यत राजमेवामुखी कैकेयी वाक्यमब्रवी राज्य गाधु पीतमंडा निरास्वाद्य तम शून्य भरतो नाभिपत्यते कैकेय्याम् मुक्तलज्जायाम् वदन्त्याम् अतिदारुणम् राजाय दशरथो वाक्यम् उवाच यतलोचनाम् वहन्तम् किम् तु सीमाम् नियुज्ये धुरिमाहिते अनार्ये कृत्यमारब्धम् किम् न पूर्वमुपारुध तस्यैतत् क्रोधसंयुक्तम् उक्तम् श्रुत्वा वरङ्गन कैकेयी द्विगुणम् क्रुद्ध राजानम् इदमब्रवीत् तवैव वंशे सगरौ ज्येष्ठपुत्रमुपाधत् असमञ्ज इति ख्यातम् तथायम् गन्तुमर्हति एवम् उक्तो धीत्येव राजा दशरथो ब्रवीत् व्रीडितश्च जनसर्व सर्व सा च तन्नावबुध्यते वृद्धो महामात्र सिद्धार्थो नाम नामतः शुचिर्बहुमतो राज्ञ कैकेयीम् इदमब्रवीत् असमञ्जो गृहीत्वा क्रीडत पथि तारकान् सरैवाम् प्रक्षिपन्नप्सु रमते तेन दुर्मतिः तम् दृष्ट्वा नागराः सर्वे क्रुद्ध्वा राजानम् अब्रुवन् असमञ्जम् वृणीष्वैकम् अस्मान् वा राष्ट्रवर्धन सान्ध्वा च राजा किन्निमित्तम् इदम् भयम् साश्चापि राज्ञा प्रकृतयो ब्रुवन् क्रीडत स्वेशनः पुत्रान् सरयवाम् प्रक्षिपन् मौर्ख्यात् अतुलहम् प्रीतिमश्नुते स तासाम् वचनम् श्रुत्वा प्रकृतीनाम् न राधिप तम् पुत्रम् तासाम् प्रिय चिकित्सय तम् यानम् सभार्यं सपरिच्छदं, सपरिच्छदम् यावज्जीवम् विवास्योऽयम् इति तान् अन्वशात् स फाल पिटकम् गृह्य गिरिदुर्गाण्यलोकयेत् दिश सर्वासुनुचरन् स यथा पापकर्म करोत् इत्येनम् मत्यजत् राजा सगरो वै सुधार्मिकः राम किम् अकरोत् पापम् येन एवम् उपरुध्यते न हि कञ्चन पश्यामो राघवस्य गुणम् वयम् दुर्लभो ह्यस्य निरय शशाङ्कस्येव कल्मषम् अथवा रेवितम् कञ्चित् दोषम् पश्यसि राघवे तम् मध्यब्रूहितत्वेन तदा रामो विवास्यते अदुष्टस्य हि सञ्जाग सत्पथे निरतस्य च निर्दहेदपि चक्रस्य द्युतिम् धर्म विरोधवान् तद्दलम् देवि रामस्य श्रियाविहतया तया, तया लोकतोऽपि हिते रक्ष परिवारः शुभानने श्रुत्वा तु सिद्धार्थवचो राजा श्रान्त सरस्वरः शोकोपहतया वाचा कैकेयीमिदमब्रवीत् एतद्वचो ने च पापरूपे भरते भरते न जानासि ममात्मनोर्थवा आय मार्गम् कृपणम् कुचेष्ट चेष्टा हि ते साधुपतः दपेता अनुव्रजिष्याम्यमाद्य रामम् राज्यम् प्रीत्यज्य धनं च सर्वे राज्ञा भरते च भरतेन च यथा सुखम् भुङ्क्व चिराय राजम् इत्यार्थे श्रीमद् रामायणे वाल्मीकी अधिकार्ये अयोध्याकाण्डे षट्त्रिंश सर्गः श्रीसीतारामचन्द्रापणमस्तु